नारदपुराणम् पूर्वार्थम् अध्यायम् नैन्टि फैव् ब्रह्मोवाच शृणु विप्रवक्ष्यामि पुराणम् वायवीयकम् यस्मिन् श्रुते लभद्धामरुद्रस्य परमात्मनः चतुर्विंशतिसाहस्रम् तत्पुराणम् प्रकीर्तितम् श्वेतकल्पप्रसङ्गेन धर्मानत्राहमारुदः तद्बायवीयनुदिदम् भागद्वयसमन्वितम् सर्गादिलक्षणम् यत्र प्रोक्तम् विप्रसविस्तरम् मन्वन्तरेषु वंशाश्च राज्ञाम् ये यत्र कीर्तिताः गया सुरस्य हननं विस्तराद्यत्र कीर्तितं मास्तानां चैवमाकात्म्यं माखस्योक्तं फलाधिकं दानधर्म राजधर्मा विस्तरे नोदितास्तथा दा। भूपादालककुव्योम चारिणी व्रतादीनां च पूर्वोऽयं विभागसमुदाहृदः उत्तरे तस्य भागे तु नर्मदा तीर्थवर्णनं शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर यो देव सर्वदेवानां दुर्विज्ञे यः सनातनः स तु सर्वात्मना यस्य ब्रह्मा रीरिदं साक्षाच्छेदं परोहरः इदं ब्रह्मनिराकारं कैवल्यं नर्मदा जलं ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः शक्तिकाभिसरिदृवा रेयमवतारिदा ये वसन्त्युतरे कूले रुद्रस्यानुचराहिते वसन्ति याम्यतीरे ये लोकं देयान्ति वैष्णवं ओङ्कारेश्वरमारभ्य यावत्पश्चिमसागरः सङ्गमापञ्चचत्रिंशन् नदीनां पाप नाशिनी दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे पञ्चत्रिंशत्तमो प्रोक्तो रेवासागरसङ्गमः सङ्गमयि सहितान्येव रेवाधीरद्वयेऽपि च चतुश्शतानि तीर्थानि प्रसिद्धानि च सन्ति हि षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर सन्ति चान्यानि रेवा यास्थिरयुग्मे संहिते यमः शिवस्य परमात्मनः नर्मदाचरितं यत्र वायुना परिकीर्तितं लिखित्वेदं पुराणं तु गुडधेनुसमन्वितं श्रावण्यां यो दधे भक्त्या ब्राह्मणाय गुडुम्बिने रुद्रलोके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश यः श्रावयेद्वाशृणुयाद्वायवीयमिदं नरः नियमेनः विष्यासि सरुद्रो नात्र संशयः यश्चानुक्रमणिमेधां शृणोति श्रावयेत्तथा सोऽपि सर्वपुराणस्य फलं श्रवणजं लभेत इति श्रीबृसन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणानुक्रमणी निरूपणं नाम पञ्चनवतितमोऽध्यायः ओम्